अथर्ग्वेते तृतीयाष्टके सप्तमोऽध्यायः बभुभ्यो दूतमिववाचमिश्य उपस्थिरेश्वैतरीन्द्रेगमीरे ये वाचूतास्तरणिभिरे वैः परिद्याम् सद्यो अपसो बभूवुः यदा रमक्रन्द्रभवः पितृभ्याम् परिमिष्टि पेषणा मुपसक्षमाः जन्धीराः सः पुष्टिमवहन्मनायैः पुनर्ये चक्रुः पितराजुवानासनायूपे वजरणाशयाना ते वाजो विभ्वाम् ऋभुरिन्द्रवन्तो मधुत्सरसो नो वन्तु यज्ञम् यत्संवत्समृभवोगामलक्षम् यत्संवत्समृभवो माविंशन् यत्संवत्समभरन्धासोस्यास्ताभिश्वमेऽभिरमृतत्वमाशुः ज्येष्ठ आह चमसाद्वाकरे तिघनी यान्त्रीन् गृणवामेत्याह करिष्ठ आह चतुरस्करे तित्वष्टर्भवस्तत्पनयद्वचो वः सत्यमोचुन्नर एवाहि चक्रुरनुस्वधाभवो जग्मुरेताम् विभ्राजमानाम् समसाङ्ग एवावे न त्वष्टाः चतुरोजदृश्वान् द्वादशद्योन्यतगोह्यस्यातिथ्येरणम् नृभवः सन्ताः सुक्षेत्राः कृनयन्त सिन्धोऽन्धन् बातिष्ठन् नौषधेर्निग्नमापाः रथ ये चक्रुः सुरतम् ये धेनुम् विश्वजुवम् विश्वरूपाम् त आदक्षन् दृभवो रयिन्नस्वपसस्वहस्ताः अपो ह्ये एषा मनुषन्तदेवा अभिक्रत्वा मनसादीध्यानाः मायो देवानामभवत्सुकर्मेन्द्रस्य बुभुक्षा वरुणस्य विभ्राः ये हरि एमेधयोधा मदन्त इन्द्रायचक्रुयुजाये अश्वाः ते राजस्वो सन्द्रविनान्यस्मे धत्तरुभवः क्षेमयन्तो न इदान्नः प्रीतिमुतपोमदन् दुर्नऋते श्रान्तस्य प्रख्याय देवाः ते नूनमस्मेरुपभोमसूनिकृतीये अस्मिन् सपने दधात ऋभुरुविभावाज इन्द्रो लोरच्छेदम् यज्ञम् रत्नधेयोपजात इदाहि वोधिषणा देव्यम् नामधाः प्रीतिम् सम्मदाः अग्मदावः विदानासो जन्मनो राजरत्ना उत ऋतुभिरुभवोमादयध्वम् शम्भो मदामत शम्भुरन् सुवीरामस्मे रजिमेरजद्धम् अयम्बो यज्ञरुभवो आरय मामुष्पत्प्रतिबोदसिद्धे प्रवोच्छाणासो स्थुरभूदविश्वे अग्र्योतमायाः अभूदो विधते रत्नतेज विदानरोदाशुषेवत्याय पिबत वाचारुभवो देवो महित्रीयम् समनम् मदाय आवा आजातोपनरुभुक्षा महो नरो द्रविणसो गृणानाः आवः पीतयोपित्रे अह्नामिमा अस्तन्नपस्व इवग्मन् आनपातश्रपसो यातनो प्रेमै यज्ञन्नमसा हूयमानाः सजोषसूरयो यस्य चमर्धः पातरत्नथा इन्द्रमन्दः स जोषा इन्द्रवरुणेन सोमम् स जोषाः पाहिगिर्वणो मरुद्धेः अग्रेपाभिरतुपाभिः सजोषाग्नास्पत्नीभिरत्नदाभिः सजोषाः सजोषस आदित्यैर्मादयध्वम् सजोषसर्ववः पर्वतेभिः सजोषसोदैर्ये एना स पित्रा सजोषसः सिन्धुभिरत्नथेभिः ये अश्विराजे पितराज ऊति तेनन्तदक्षुर्भवो ये अश्वाः ये अंसत्राजरथग्रोदसी ये विभो नरस्वत्यादि चक्रुः ये गोमन्दम् वाजवन्तम् सुवीरम् रयिन्थवसुमन्तम् पुरुक्षम् ते अग्रे पारुभवो मन्दसाना अस्मे धत्तये च रातिम् गृणन्ति नापा आभूतनभो तीदृशामानिशस्तानुभवो यज्ञे अस्मिन् समिन्द्रे नरुद्भिः सम्राजभिरत्नतेजाय देवाः इहोपयातशवसो नपादस्सौधन्वनारुपगोमापभूत अस्मिन् हि वत्सवनेरत्नथे जङ्गमन्विन्द्रमनुगोमदासः आगन्द्रुपूणामिहरत्नथे यमभूत्सोमस्य सुषुतस्य प्रीतिः सुकृत्य यायत्सुमस्य या शङ्गेकम् विचक्रजमसञ्चतुर्धा व्यतृणोदजमसञ्चतुर्धा सक्षेऽपि शिक्षेत्यब्रवीता अथैतवाजा अमृतस्य पन्था अङ्गणम् देवानामृभवस्वहस्ताः किम्मयस्विच्चमस एषा सज् काव्ये न विचक्र अथा सुध्वंसवनम् मदायपाभवो मधुनः सोम्यस्य शच्याकर्तपितरायुवाशच्याकर्ततमसन्देहे भवानम् शच्या हरीधुतलावतुष्टेन्द्रवाः आवृभवो वाजरत्नाः यो वः सुनोत्यभित्त्वे अह्नाहन्ति ब्रह्वाजा सस्सवदाहाय तस्मै सर्वमैरमादक्षतवृषणो मन्दसाराः प्रातः सुतमपि वो हर्यश्वमाद्यन्दिनम् सव न केवलम् ते स मृभुभिः पिवस्परत् तथेभिः सखीयाङ्गत्या ये दे देवासु अभवतासु कृत्या श्येन इवेदधि ते रत्नम् धातशवसो न अभवतामृता सवनम् रत्नधेयमरुणध्वम् स्वस्या सुहस्ताः तदृभवः परिषिक्तम् व एतत्सम्मदेभिरिन्द्रियेभिः पिबद्धम् अनश्वो जातो अनभिषुरुक्ष्यो ओ, ओ, ओ, ओ, ओ रथस्त्रिचक्रः रजाः महत्तद्वो देव्यस्य प्रवाचनम् जानुभव पृथिवे च पुष्यथ रथ ये चक्रुः सुहृतम् सुचेतसो विह्वलन्तम् मनसस्वरिध्यया ताङ्गोन्वा अस्य सवलस्य पीतया वो बादानुभवो वेदयामसि तद्वो बाजानुभवः देवेषु विद्वो अभवन्महित्पदम् ्रे यत्सन्ताः पितराः सनाजुरा पुनर्युवानाचरथा यतक्ष एकम् विचक्रतमसञ्जतु निश्चर्म योगामरिणीतधीतिभिः अथा देवेश्वमृतत्वमाहानशसृष्टिवाहादारद्वख्यम् रजिःपथमश्रमस्तमोवाजश्रुता सोजमजीजनन्नराः बिभ्रदर्ष्टो विदते प्रभाच्योजन्देर्षणिः स वाच्यर्वासऋर्वसु दुष्टराः स रायस्पोषं स सुवीर्यम् दधेयम् वाजो बिभ्राम्भोजमाविषु श्रेष्ठम् वःपेशो अधिधायि दर्शतं स्तोमो धीरा सोऽष्ठा कवयो विपश्चिदस्तान्व एना ब्रह्मणा वेदयामसि योजमस्मभ्यम् धिषणाभ्यस्मरि विद्वांसो विश्वादर्याणि भोजना यमन्तम् वाजम् उत्तममानो रजिमस्तक्षताभयाः इह प्रजामिह रजिम्बराणा इह श्रवो वीरवत्तक्षतानः येन भयञ्चितदेवात्यन्यान्तम् वाजम् चित्रमुपवो ददानः उपनो वाजा अध्वर मुभुक्षा देवाजात पथिभिर्देव जानै यथा यज्ञम् मनुषो विक्ष्वा आसुतधिवेरण्वासुदिदेष्मह्ना तेवो हृदे मनसे संतु यज्ञा दुष्टासो अद्य हृतनिर्णिजोगुः प्रवः सुतासो हरयन्त पूर्णाः क्रत्वे देवहितम् यथा बाजार सोमो बाजारुभुक्षणो देवाः जुक्ष्मे परासु भिक्षु जुष्मे स चा बृहद्दिवेषु सोमम् पीवो अश्वाश्विचद्रथाहि भूतायश्चि प्रावायिनस्व निष्काः इन्द्रस्य सूनो शमसोनमातोनुवश्चेत्यग्रियम् मदाय ऋभुभुभुक्षणो रयिम् वाजे एवाजिन्द्रम्युजम् इन्द्रस्वन्दम् हवामहे सदा सामश्विनम् सेदृभोजमवथ यूजमिन्द्रश्चमर्थ्यम् सेपिरस्तु सरिता मेधसा आतासो अर्वदा विनोभाजा ऋभुक्षणः पथश्चि तनयष्टवे अस्मभ्यम् सूरजस्तुता विश्वा आशास्तरीषणि तन्नो ओभाजा ऋभुक्षण इन्द्ररासत्या रयिम् समश्वञ्चर्षणिभ्यः पुरुषस्तमघर्तये उतो हिमाहन्दात्रा सन्ति पूर्वाजापूरुभ्यस्तसदस्युर्नितोषे क्षेत्रासा नरासाङ्खनन्दस्युभ्यो अभिभूतिमुग्रम् उत वादिनम् बुरुनिश्रिद्वा आनन्दधिक्रामुदथुर्विश्वकृष्टिम् ्येनम् पृषिदत्सु माशिचरकृत्य वर्यो नृपतिम् न शूरम् यम् सीमनुप्रवते भद्रवन्तम् विश्वः पूरुर्मदतिहर्षमाणः पड्भरगृध्यन्तम् मेथयुन्न शूरम् मृतशुरम् वातमिवर्धजन्तम् यस्मा रुन्धानो कृतस्मै नम् वस्रमथिन्नतायुमनुक्रोशन्ति क्षितजोभरेषु नीचायमानञ्जसुरिन्नश्येन श्रवश्चाच्छाः पशुमच्च यूथम् उतस्माः सुप्रथमः सरिष्यन्निवेतिश्रेणिभीरथानाम् बे स्रजम् गृह्वानोजन्योनशुभारेणुम् रेणि हर्किरणम् रदश्वान् उतस्य वायी सहृता वाशुश्रूषमाणस्तन्वा समर्ये तुरञयतेषु तुरयन्त्र दिव्योधिभ्रुवोः किरते रेणुभ्रञ्जन् उतस्मास्य मद्यो यतो अभियुजो भयन्ते यदा सहस्रमपि शीमयोधे दुर्वर्तुस्मा भवति भीमरञ्जन् उतस्मास्य पनयन्ति जनाः ज्योतिम् दृष्टिप्रो अभिभूतिमाशोः उतैनमाहुस्समिधे वियन्तः परादधिक्रा असरत्सहस्रैः कालधिक्श्रमसा पञ्चकृष्टे सूर्य इव ज्योतिषापस्ततान सहस्रसा शतसा वाज्यर्वाः पृणक्तुमद्भासमिमा वचांसे आशुन्दधिक्रान्तमनुष्टवाम दिवः पृथिव्या उतर्किराम उच्छन्तेर्मावषसः सूदयन्तति विश्वानि दुरितानि परुषन् महश्चर्खर्म्यर्वदृदुप्रादधिक्राव्णः पुरुवारस्य कृष्णाः यम् भूरुभ्यो ये दिवाम् सन्नाग्निन्दतथुरमित्रावरुणात पुरिम् यो अश्वस्यक्राणोऽकारे समिद्धे अग्ना उषसोऽभ्युष्टौ अनागसन्तमतिः कृणोतु समित्रेण वरुणेन सजोषाः अधिक्राम्ण इष ऊर्जो महोयदमन्महि मरुतान्नाम भद्रम् स्वस्करे वरुणम् मित्रमग्निम् हवामह इन्द्रम् वज्रबाहुम् इन्द्रमिवेदुभये विह्वयन्त उदीरा आणायज्ञमुपप्रयन्ताः अधिक्रापुसूदरम्मर्त्या आयदथुर्वमित्रावरुणा नो अश्वम् अधिक्राम् णो अकारिषञ्जिष्णोरुश्वस्य वाजिनाः सुरभिनोमुख आकरप्रण आयोशितारिषत्धिक्राम् न इदु नु चर्किरामविश्वा इन्मा उषसः सूदयन्तु अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः सत्त्वाभरिशोगविशोदुवन्यसत् श्रवस्यादिश उषसस्तु र्यसत् सत्योद्रवोद्रवरःपतङ्गरोदधिक्रावेशमोर्जम् सज्जनत् उतस्मास्यत्रवतस्तुरण्यतः पर्णन्दवेरनुवादिप्रवर्धिनाः श्येनस्येतोधिक्राणः सहोर्जातरित्रतः उतस्य वाजे क्षिपणीम् तुरण्यति ग्रीवायाम् वद्धो अपि कक्ष आसने क्रतुम् नधिक्रा अनुसन्तवे त्वत्पथामङ्कांस्यन्वापने रसदृतसद्व्योमसदब्जा गोजा रतजा अद्रिजा रतम् इन्द्रा गोवाहम् वरुणा सुन्नमा प्रस्तोमो हविष्मामृतो न होताः यो वाहम् हृदि क्रुतुमाङस्मदः पस्परिषदिन्द्रा वरुणा नमस्वान् इन्द्राहयो वरुणा चक्रः सख्याय प्रयस्वान् सहन्ति वृत्रा समिचे शत्रो नवोभिर्वा महद्भिः स प्रसङ्गे इन्द्राह रत्नम् वरुणाधेष्ठेऽर्थानृभ्यश्च समानेभ्यस्ता यदि सखाया सख्याय सोमैः सुतेभिः स्वप्रयसा मादयी ते इन्द्रायोम् वरुणादिव्यमस्मिन्नो जिष्ठमुग्राणिमधिष्ठम् वज्रम् यो नो दुरेवो वृकतिर्दभेतिस्तस्मिन्निमाथामभिभूत्योजाः इन्द्रायुवम् वरुणा भूतमस्याधियः प्रेतारा वृषभे पधेनोः सानो यद्यवसे मगत्त्व सहस्रधारापयसा मही गौः लोके हि ते तनय उर्वरा सुसूनो दृशी के कृषणश्च आनो इन्द्रा नो अत्र वरुणा स्यातामगोभिर्दस्मा परितज्ञायाम् युवामिध्यमसे पूर्व्याजपरि प्रभूति कविशस्वापि श्रीमहे सख्याय प्रियायशु रामम् निष्ठापितरेव शम्भो ता बान्धियोपसेवा जयन्ते वयो सुदानो श्रिये न उपसोमस्थुरिन्द्रङ्गिरो वरुणम् मे मनीषाः इमा इन्द्रम् वरुणम् मे मनीषामन्वद्रविणमिच्छमानाः उभे मथुर्ज्योष्टार इमस्वो रघ्वेरिवश्रवसोभिक्षमाणाः अश्वस्यत्मनारथ्यस्य पुष्टेर्नित्यस्य राजः पतयस्याम तातक्राणा ओतिभिन्नव्यसेभिरस्पत्रा राजो नियुतः सन्दाम् आ नो बृहन्ता बृहतेभिरुते इन्द्रजातम् वरुणवाजसादौ यद्यवृतनासु प्रक्रीडान्तस्य वांस्याम स नितार आदेः ममद्विता राष्ट्रम् क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः कृतुम् सजन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य भौरेः अहम् राजा वरुणो मह्यन्तान्यसूर्याणि प्रथमाधारयन्त कृतुम् सजन्ते वरुणस्य देवाराजामि कृष्टेरुपमस्य भौरेः अहमिन्द्रो वरुणस्ते महितोभीरे रजसी सुमेके कृष्टेमविश्वा भुवनानि विद्वान् समैरजं रोदसी अहमपो अपिन्वमुक्षमाणाधारयन्ति वंसदन ऋतस्य ऋतेन पुत्रो अधितेन ऋता भूत त्रिधातु प्रथयद्विभूमा मान्नरस्वश्वा आवाजयन्तो माम् मृताः समरणे हवन्ते तृणोम् न्यादिम् अघवाहमिन्द्र इयर्मिरेणुमभिभोत्योजाः ्यम् सहो मरते अप्रतीतम् यन्मासो मासो मम धन्यदुःखोऽभे भजेते रजसी अपारे विदुष्टे विश्वाभुवनानि तस्य ता प्रब्रवीषिवरुणाजमेधः तम् मृत्राणिषे जघन्दान्तम् वृताम् अरिणा इन्द्रसिन्धोन् अस्माकमत्र पितरस्त आसन् सप्तर्षजोदौर्गहे मध्यमा आने त्रसदस्य मस्या इन्द्रन्नवृत्रतुलमर्धदेवम् पुरुकुत्सानिः वामदाशद्धव्येऽभिरिन्द्रावरुणा नमोभिः अथ राजानन्त्रसदस्य मस्या वृत्रहनन्दनतुलब्धदेवम् राजाभयं स सवां सोमदेव हव्येन देवायभसेन गावाः धेनुमिन्द्रावरुणा युवन्नो विश्वाः सत्तमनपस्फुरन्ति क उश्रवत्कतमो यज्ञियानाम् वन्दानुदेवः कतमो जुषाते कस्येमाम् देवी ममृते सुप्रेष्ठाम् हृदि श्रेष्ठाम सुष्ठुतिम् सुहव्याम् को आगमिष्ठो देवानामुकतमः शम्भविष्ठः रथङ्गमा सूर्यस्य दुहिता मक्षो हिष्मागच्छथ एव तोद्योनिन्द्रो न शक्तिम् वरितज्ञायाम् दिव आजा आता दिव्या स्वपर्णाकया सचे एनाम्बवथ सचिष्ठा का वाम् भूतुपमादिष्कयानाश्विनागमथो हूयमाना को वाम् माश्चेत्येदसो अभेक उरुष्यतम् माध्वेदस्तान ऊति उरुवाम् यमस्मे सुमतिर्वा आजरत्ना इहेहयद्वांसमनापृक्षे सेयमस्मे सुमतिर्वाजरत्नाम् जलितारम् कामो नासत्याद्रिक तम् वामृथम् वयमद्याहुवेमपृथुज्रयमश्विना सङ्गतिङ्गोः यः सोर्याम् वहति बन्धुरायुर्गिर्वाहसम्बुरुमम् वसोऽयम् युगम् श्रियमश्विना देवताम् दिवो न वातावनश्च युगोर्वपुरधिवृक्षः सदन्त वहन्ति यत्कपुहासोरथे वा को वा मद्याकरते रातहौव्यपेयाय वार्कैः कृतस्य वा मनुषे पूर्व्याय नमो ये बालोऽश्विनावर्तत हिरण्यजेन पुरुभोरथेनेमयज्जन्ना सत्योपयातम् पिबा च मधुनः सोम्यस्य रसतो रत्नम् विधते जनाया आनो दिवो अच्छा पृथिव्या हिरण्यजेन सुकृतारथेन मा वा मन्ये नियमन्दे वयन्तः संयद्देन नो नो रजिम् पुरुवीरम् रहन्तन्दश्रामिमाथामुभयेष्वस्मे न रोयद्वामश्विनास्तो ममामम् सहस्तुतिमाजमीह्लासो अग्मन् इहे हयद्वाम् समनापृक्षे सेयमस्मे सुमधिर्माजरत्ना वृष्यतम् जरितारञु ब्रह्म श्रितः कामो नासत्यायुवद्रि एतस्य भानुरुति यति युज्यते रसः अस्य सानमे वृक्षासो अस्मिन् मिथुना चेत्त यो दृतिस्थुरी यो उद्वाम् वृक्षासो मधुमन्त ईरते रथाश्वास उषसोर्दुष्टिषु अपोर्नुमन्तस्तमापरेतम् स्वा अर्णशुक्रम् तन्वन्त रजाः मद्भक्पितम् मधुवेऽभिरासभिरुप्रियम् मधुमे जुञ्जाथामृतम् आवर्तनीं मधुनादिन्वधस्पथो दृतिं मधुमंतमश्विना, मधुमन्तमश्विना हंसासो ये मां मधुमन्तो अश्रितो हिरण्यवर्णा हुव उषर्बुधाः उदप्रुतो मन्दिरो मन्दिरः स्पृशो मध्वो नक्षः सवनानि गच्छथः स्वध्वरासो मधुमन्तो अग्नय उस्राजरन्ते यन्निहतःस्तरणिर्विचक्षणः सोमम् सुषापमधुमन्तवग्रिभिः आये निपासो अहभिर्दबिद्भतस्वा अर्णशुक्रम् तन्वन्तः रजाः सूरश्चिदश्वान्यजानयीयते विश्वामनुस्वधयाचेतथस्वथः प्रवामवोचमश्विनाथि यन्धारथस्वश्वो अजरोजो अस्ति येन सद्यः परिरजांसि याथो हविष्पन्तरणिम् भोजमच्छ अग्रम् पिबामधूनाम् सुतम् वायोष्टिषो त्वम् हि पोरुद्वपा असि स तेना नो अभिष्टिभिर्नियुत्वाम् इन्द्रसारथिः वायोसुपस्य तम् वतम् आवाम् सहस्रम् हरज इन्द्रवायो अभिप्रयाः वहन्तु सोमपीतये कथम् हिरण्यबन्धुरमिन्द्रवायोस्वध्वरम् अथेन पृथुपायसा दाश्वाम् इन्द्रवायो इहागतम् इन्द्रवायो अयम् सुतस्तम् देवेभिः सजोषसा निवतन्दाशुषो गृहे इह प्रयाणमस्तु वामिन्द्रवायो विमोचनम् इह वाम् सोम पीतये वायो शुक्रो अयामि ते मध्यो अग्रन्धिविष्टिषु आहि सोम पीतये स्पार्हो देव नियुत्वता इन्द्रश्च युवाम् हियन्तेन्दवो निम्नमा पोनसध्य वाजविन्दश्च सुमिना सरथम् शमसस्पते नियुत्पन्ता न ऊतया या तम् सोमपीतये या वांसन्ति पुरस्पृहो नियुतो दाशुषे नरा अस्मेता यज्ञ वा हसेन्द्र नियच्छतम् इहि होत्रा अविता विपो वायवा नरथे याहि सुतस्य पीतजे ए निर्युवाणो अशस्तिर्नियुत्वान्द्रसारथि वायवा चन्द्रेण रथेन याहि सुतस्य पीतजे ए अनुकृष्णे वसुधिति ये माते विश्वपेशसा वायवा चन्द्रेण रथेन याहि सुतस्य पीतये वहन् कृत्वा मनोजुजो युक्तासो नभतिर्नव वायवा चन्द्रेण रथेन याहि सुतस्य पीतये वायोशतंहरेण युवस्वपोष्याणा उत वा ते सहस्रिनोरथाया उपादसा इदम् वा मास्ये हविष्प्रियमिन्द्रा बृहस्पति उक्थम् मदश्च शस्यते अयम् वाम् परिषिच्यते सोम इन्द्रा बृहस्पति चारुर्मदाय पीतदे आन इन्द्रा बृहस्पति गृहमिन्द्रश्च गच्छतम् सोमपा सोमपीतये अस्मे इन्द्रा बृहस्पते रजिम् धत्तम् शतग्मिनम् अश्वावन्तम् सहस्रिणम् इन्द्रा बृहस्पति भजम् सुते गीर्भिरहवामहे अस्य सोमस्य पीतये सोममिन्द्रा बृहस्पतेऽपितन्दाशुषो गृहे मातये यस्तस्तम् भसहसा विज्ञो अन्तान् बृहस्पतिस्त्रिशधस्थो रवेण रत्नासविषयोदीध्यानाः पुरोऽभिप्रादधिरे मन्द्रजिह्वम् सुप्रकेतम् मदन्तो बृहस्पते अभियेनस्ततस्रे प्रशन्तम् सप्रमदब्धमूर्वम् बृहस्पते रक्षतादस्य योनिम् बृहस्पतेजापरमापरामरस्पुशो तुभ्यङ् घाता अवता अत्रिरुग्धा मद्भश्चोतम् चवितोऽभिरक्षम् बृहस्पतिः प्रथमम् जायमानो महो ज्योतिषः परमेतास्यस्तु विजातो रवेणवि सप्तरश्मिरतमत्तमांसि स सुष्ठु भासर्क्वदा गणेन बलम् रुरोजफलिकम् रवेण बृहस्पतिरुश्रिया हव्यसूदः कनिकृ वसतिरुदाजत् देवापित्रे विश्वदेवाजकृष्णे यज्ञैर्विधे मनवसा हिर्भिः बृहस्पते सुप्रजा वीणवन्तो वयम् स्यामपतयोरीणाम् स इद्राजाप्रतिजन्यानि विश्वा सुष्मेण तस्थावभिवीर्येण बृहस्पति यः सुहृतम् विभर्ति वल्गो यतिवन्दते पूर्वभाजम् स इद्रे एति सुधित ओकसि स्वे तस्मा तस्मै विशस्वयमेवानमन्ते यस्मिन् ब्रह्मा राजनिपूर्व एते अप्रतीतो जयति सन्धनारिप्रतिजन्यान्युतया सजन्या अवस्य वेयो कृणोति ब्रह्मणे राजा तमवन्ति देवाः इन्द्रश्च सोमम् विपतम् रहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्डसु आपाम्विशन् बिन्दव स्वापुवोऽस्मे रयिम् बृहस्पतैन्द्रवर्धतन्दः स चासा वां सुमतिर्भूत्वस्मे अभिष्टन्धियोधिकृतम् पुरन्देर्यलस्तमर्यो मनुषामरातीः